श्रीहरये नमः अथ सप्तत्रिंशोऽध्यायः श्रीशुक उवाच किं सीतूकं सप्रहितकुरैर्महीं महाकयो कुर्वन्नभोगेशितभीक्षिताखिलः विशालनेत्रो विकटास्य कोठरो बृहद् गलो नीलमकाम्बुधोपमः धुरासयकं सहितं चिकीर्षोर् रजं सनन्दस्य जगामकम्पयन् तं भगवान् स्वगोकुलम् तद्देशितैर्वालविघूर्णिताम्भुतम् आत्मानमाजौ मृगयन्तमग्रणेर् उपाह्वयत् स व्यधनन्मृगेन्द्रवत् सतं निशां याभिमुखो मुखेन कम्बिभन्निव अभ्यध्रवत् अद्यमर्षणः जगानपद्यामरविन्दलोचनं दुरासदस् चण्डजवो दुरत्ययः तत् वञ्चयित्वा दमदोक्षजोरुषा प्रगृह्य दोर्भ्यां परिविध्यपादयोः सावज्ञमुत्सृज्यदनुःसतान्तरे यतो रगं दास्य सुतो व्यवस्थितः स लब्धसम्यक् पुनरुत्थितोरुषा व्याधाय सोप्यस्य वक्त्रे भुजमुत्तरं स्मयन् प्रवेशयामासयतोरघम्बिले दन्तानि पे दुर्भगवत् स्फुजः स्पृशस्ते केशिनस्तप्तमयः स्पृशूयत भागुश्च तद्देहगतो महात्मनो यथा उपेक्षितः समेधमानेन स निरुद्ध वायोश्चरणांश्च विक्षिपन् प्रस्मिन्न गात्रः व्यसो अपाकृष्य भुजं महाभुजः अविस्मितो देवर्षिरूपसङ्गम्य भागवत प्रवरो नृप कृष्णं क्लिष्टकर्माणं रहस्येतत् अभाक्षत कृष्णकृष्ण अप्रमेयात्मन् योगे स जगदीश्वर वासुदेवाखिला वाससात्वतां प्रवरप्रभो त्वमात्मा सर्वभूतानां एको ज्योतिरिवैधसाम् गूटो गुहासयक् साक्षी महापुरुष ईश्वरः आत्मनात्माश्रयः पूर्वं मायया गुणान् तैरिदं सत्यसङ्कल्प सृजस्य वसीश्वरः भूतरभूतानां दैत्यप्रमतरक्षसाम् अवतीर्णो विनाशाय सेतूनां रक्षणाय च दिष्ट्या ते निकतो दैत्यो लीलायं कयाकृतिः हे। यस्य हेक्षितसन्त्रस्तास्त्यजन्त्यनिमिषादिवं चाणूरं मुष्टिकं चैव मल्लानन्याश्च हस्तिनं कंसं च द्रक्ष्ये परस्वोहनिते विभो तस्यानुशङ्कयवनमुराणा नरकस्य च पारिजातापहरणम् इन्द्रस्य च पराजयौ उद्वागम् वीरकन्यानां वीर्यशुल्कादिलक्षणं मृगस्य मोक्षणं शापत् द्वारकायां जगत्पते शमन्तकस्य चमणे आदानं सख भार्यया मृतपुत्रप्रधानं च ब्राह्मणस्य स्वधामतः पौण्ड्रकस्य वतं पश्चात् काशीपुर्याश्च दीपनं दन्तवक्त्रस्य निधनं चैत्यस्य च चा महाक्रतो यानि चान्यानि वीर्याणि द्वारकामापसन् भवान् कर्ता द्रक्ष्यां यहं अथ ते कालरूपस्य क्षपयिष् अमुष्य वये अक्षौहिणीनां निधनं द्रक्ष्यामर्जुनशारतेः विशुद्धविज्ञानगणं स्वसंस्थया समाप्तसर्वात्तम अमोघवाञ्छितम् स्वदेजसान्नित्यनिवृत्तमाया गुणप्रवाहं भगवन्त मीमहे त्वामीश्वरं स्वाश्रयमात्ममायया विनिर्मिता शेषविशेषकल्पनं क्रीडार्थमध्यात्मनुष्यविग्रहं नतोऽस्मि तुर्यं यतु वृष्णिसात्वता श्रीशुक उवाच एवं यदुपतिं कृष्णं भागवतः प्रवरो मुनिः प्रणिपध्याप्यनुज्ञातो ययौ भगवानपि गोविन्दो हत्वा केशिनमाघवे पशून् पालयत्पालये प्रीतैर्व्रजसुखावहहा ये गता ते पशून् पालाञ्चारयन्तो दृशानुषो चक्रुर्निलायनक्रीडाश्चोरबालापदे सतः तत्रासन् कतिचिच्चोरां बालाश्च कतिचिन्नृप मेषायिताश्च तत्रैके विजकृ अकुतो भयाः मयपुत्रो मकामायो व्योमो गोपालवेशदृ मेषायिता प्रायश्चोरयितो बहून् गिरितर्या विनिक्षिप्य नीतं नीतं महासुरः शिलया विदते द्वारं चतुःपञ्चावशेषिताः तस्य तत्कर्म विज्ञाय कृष्णः शरणतः सतां गोपानयन्तं जग्राह वृकं करिरिवौजसा स निजं रूपमास्ताय गिरीन्द्रशत्रुसम्भलीम् इच्छन् विमोक्तुम् आत्मानं नासज्ञोद्ग्रहणाधुरः तं निकृच्युतो दोर्व्यां पातयित्वा महीतलें पश्यतां दिवि देवानां पशुमारममारय गुहाभितानं निर्विद्य गोपान्निःशय कृश्रतः पूयमानसुरैर्गोपये प्रविवेशस्व गोकुलम् इति श्रीमद्भागवते महापुराणे दशमस्कन्ते पूर्वार्धे व्योमोऽसुरवधनु नाम सर्वत्र गोपिका गोविन्दा, गोविन्दा, सद्गुरुनाथ महाराज की जय